तौ तु पानं मदरक्तं तलोचनौ दृष्ट्वैव तां मरारोहां व्यथितौ सम्बभूवतुः तावुत्थायासनं हित्वा जग्मतुर्यत्र सा स्थिता उभौ च कामसम्मत्ता उभौ प्रार्थयतश्च तां दक्षिणे तां करे सुभ्रूं वरप्रदानमत्तौ तावौ रसेन बलेन च दक्षिणेन कटाक्षेण सुन्दं जग्राहकामिनी वामेनैव कटाक्षेण उपसुन्दं जिघक्षति गन्धाभरणरूपैस्तौ व्यामोहं जग्मतुस्तदा मदकामसमाविष्टौ परस्परमथोचतुः मम भार्या तव गुरुरिति सुन्दोभ्य मम भार्या तव वधूरुपसुन्दोभ्य नैषा तव ममैषेती ततस्तौ मन्युराविशत् तस्यारूपेण सम्मत्तौ विगतस्नेहसौहृदौ तस्याहेतोर्गदे भीमे सङ्गृह्णीतामुभौ तदा प्रगृह्य काममोहितौ